नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अद्य अस्मिन् सत्रे एकं नूतनविषयं प्रस्तौतुम् इच्छामि यस्य चर्चा पूर्वं प्रायः न स्यात् अथवा न आसीत् अयं विषयः बहु रुचिकरः विषयः अपि च योगनिष्ठजीवने महत्वपूर्णः विषयः अपि अस्ति वयं जानीमः मानवस्य जीवने त्रयः स्तराः सन्ति मानवजीवनं त्रिस्तर्यात्मकं वर्तते शारीरिकं स्तरं शारीरिकस्तरः मानसिकः स्तरः आध्यात्मिकः स्तरः इति जानीमः अत्र महत्त्वपूर्णविषयः कः इति चेत् योगनिष्ठजीवने एतेषां त्रयाणां स्तराणाम् अपि विकासः विस्तारः च भवति योगनिष्ठजीवनं त्रिषु अपि स्तरेषु विकासं विस्तारं च साधयति शारीरिकस्तरे योगनिष्ठजीवनस्य के के लाभाः सन्ति इति विस्तारेण अस्माभिः पूर्वं चर्चा कृता यथा तत्र सात्विकाहारः योगासनानि व्यायामः अनन्तरं निर्जलोपवासः इति इत्यादयः विषयाः अस्माभिः सर्चिताः एतेषां परिणामस्वरूपेण अस्माकं शरीरम् उत्तमं भवति अस्माकं स्वास्थ्यं सम्यक् भवति दीर्घायुः भवति औषधानाम् अनावश्यकता च भवति बलं भवति सहनशक्ति भवति पाचनशक्तिः भवति इति एतत् सर्वं शारीरिकस्तरे लाभदायकमस्ति एते सर्वे अपि शारीरिके शारीरिकस्तरे योगनिषजीवनस्य स्वाभाविकफलानि सन्ति एते एव आधाररूपेण अन्ये अन्येषाम् अन्ये, अन्ये अन्यान् स्तरान् अपि एते स्पृशन्ति शारीरिकस्तरे यद्वयं कुर्मः तेषां लाभः अन्येषु स्तरेषु अपि भवति अत्र शारीरिकस्तरे शरीरं तु सीमितं वर्तते अस्माकं शरीरं सीमितं वर् वर्तते वयं तु सर्वव्यापिनः न स्मः अस्माकं शरीरस्य सीमा वर्तते यदा वयं भवामः चेत् कुत्रचित् कस्मिञ्चित् स्थले कस्मिञ्चित् समये वयं भवामः अतः तस्य विस्तारः स्वभावतः न भवति तर्हि शरीरस्य मुख्यकर्तव्यं यत् स्वास्थ्यं भवेत् तर्हि तादृश यदा स्वस् शरीरः शरीरं स्वस्थं भवति तदानीं मानसिक आध्यात्मिकस्तरे विस्तारः सम्भवति इत्युक्ते योगनिष्ठजीवने शरीरम् अस्माकं लक्ष्यं नास्ति केवलं शरीरमेव लक्ष्यम् इति वयं चिन्तयामः चेत् तर्हि वयं भ्रमिताः स्मः इत्युक्ते तत्र ये हठयोगिनः सन्ति ते किं कुर्वन्ति चे इति चेत् योगनिश् योग इत्युक्ते योगः इत्युक्ते तत्र व्यायामविषये ते अधिकं महत्त्वं ते, ते, ते ददति उदाहरणरूपेण वयं द्रष्टुं शक्नुमः शरीरं तु आधारः अस्ति एव तत्र, तत्र वासं तत्र वासं, वासं तत्र वासं कः वासं करोति इति चेत् तत्र यः परमात्मा वासं करोति तदेव अस्माकं परमं लक्ष्यमस्ति तत् प्रति एव वयं दावामः परमात्मानं प्रति वयं दावामः प्रतिक्षणं वयं परमात्मानं प्रति धावामः अतः मानसिकम् आध्यात्मिकं च स्तरम् अतः साक्षात् आगच्छामः तस्मिन् तस्मिन् स्तरे किं भवति इति वयं पश्यामः मनसि अनन्तं प्रति पिपासा वर्तते इति वयं जानीमः तदेव मा मनुष्यस्य लक्षणम् इति अपि वयं जानीमः मनुष्यस्य धर्मः कः मनुष्येषु विलक्षणः गुणः अथवा धर्मः कः इति अनन्तेषणा इति अस्माभिः प्रथमवर्गात् चर्चा कृता अनन्तं तु आध्यात्मिकक्षेत्रे एव लभ्यते योगशब्दस्य अर्थे एव जीवनस्य परमं लक्ष्यम् अन्तर्निहितं वर्तते संयोगो योगः इत्युक्तौ जीवात्मा परमात्मनोः जीवात्मा परमात्मनोः संयोगः योगः इति जीवात्मना जीवात्मनः परमात्मना सह यः संयोगः सः एव योगः यः एषः संयोगः मनसः परः वर्तते मनसातीतः वर्तते कथं लभ्यते इति चेत् साधनाद्वारा लभ्यते मनः अनन्तम् अनन्तं चिन्तयत् यदा भवति तदा किं भवति इति चेत् स्वम् अतिक्रम्य अनन्तं प्रति गच्छति मनसा मनसातीतः मनसातीतः भवति पुनः वयं वयं जानीमः यस्य विषये वयं चिन्तनं कुर्मः तद्वत् भवति यदा मनः परमात्मनः परमात्मन परमात्मनविषये परमात्मनः विषये चिन्तनं करोति तदानीं स्वम् अतिक्रम्य अनन्तं प्रति गच्छति तर्हि आध्यात्मिकमनः एव आधारः अस्ति आध्यात्मिकगमने मनः मन मनः आधारीकृत्य आध्यात्मिकवर्धनं भवति मनः एव साधना मनसः प्रयोगः भवति अन्ततो गत्वा साधनायां मनसः अपि अतिक्रमणं भवति शारीरिकस्तरः अस्ति मनहा आधारीकृत्य मनसः आधारं स्वीकृत्य आध्यात्मिकस्तरे वयं प्रविशामः शरीरं स्वस्थं चेत् मनसः कृते सम्यक् वातावरणं भवति तर्हि तदानीं मनः परमात्मानं प्रति दाननं कर्तुं शक्नोति अनन्तं प्रति गमनं कर्तुं समर्थं भवति मनः शरीरं स्वस्थं वर्तते चेदेव यदि शरीरं दुर्बलम् अस्ति तत्र रोगाः सन्ति तर्हि साधनायाः आधारः न भवति तर्हि मनसः कृते सम्यक् वातावरणं न भवति अतः एव वयं पुनः पुनः अस्माकं वर्गेषु आहारस्य विषये सर्वदा वदामः कोपि चिन् चिन्तयेत् सर्वदा आहारस्य विषये एव वयं चर्चां कुर्मः इति यतो हि आहारः सम्यक् वर्तते चेदेव शरीरं सम्यक् भवति शरीरं सम्यक् वर्तते चेदेव मनः सम्यक् भवति मनः सम्यक् वर्तते चेदेव परमात्मानं प्रति धावनं कर्तुं शक्यते साधनां कर्तुं शक्यते यतोहि शरीरं सम्यक् नास्ति चेत् अन्यत् किमपि न भवितुमर्हति शरीरे रोगाः सन्ति चेत् तर्हि मनः आध्यात्मिकचिन्तनं कर्तुं समर्थं न भवति अतः शारीरिक स्वस्थता अति आवश्यकी परन्तु शरीरं केवलम् आधारः अस्ति साधनया मनः अनन्तं प्रति गच्छति विशुद्धपुरुषे मनः लीयते मानवजीवनं त्रिस्तर्यात्मकं शारीरिकं मानसिकम् आध्यात्मिकं च शा। शारीरिकस्तरस्य मानसिकस्तरस्य चर्चा इदानीम् अस्माभिः कृता इत्युक्ते तत्र आध्यात्मिकस्तरस्य चर्चा आध्यात्मिकस्तरः तु मनसः आधारं स्वीकृत्य आध्यात्मिकस्तरः भवति इदानीं मध्यस्तरः अस्ति मानसिकस्तरः इत्युक्ते तत्र योगः इत्युक्ते यः सीमितः यद् सीमितं वस्तु अस्ति तद् तस्य अनन्तं प्रति गमनं अपूर्णस्य पूर्णं प्रति गमनं मा, मानसिकस्वस्तरे यः विस्तारः सम्पादयितुम् इच्छामः तस्य तात्पर्यं किम् अस्ति इत्युक्ते तत्र योगनिष्ठजीवने मनसः कः भागः अस्ति शरीरं वर्तते मनः वर्तते आत्मा वर्तते एषु त्रिषु मनः किमर्थं महत्त्वपूर्णं वर्तते मनः सामान्यजीवने यथा कार्यं करोति तस्मिन्नेव सन्दर्भे अस्मिन् योगनिष्ठजीवने अपि मनः अत्यन्तं महत्त्वपूर्णं स्थानं वहति सामान्यजीवने तु मनसः मनस मनसः आधारः वर्तते मनसि एव इच्छाः भवन्ति तदाधारेण एव मनः मनुष्याः अग्रे कार्यं कुर्वन्ति यथा शरीरम् आधाररूपेण आध्यात्मिकसाधनायाः समर्थनं करोति तथा मनः अपि योगप्रक्रियायाः समर्थनं करोति एतत् समर्थनं किमर्थम् आवश्यकं मनः एकं वातावरणं निर्माति यत्र आध्यात्मिक साधना सम्भवति यदि मनः विविधैः मानसिकबन्धनैः बत्तम भवति तदानीं तेन वातावरणं अनन्तं प्रति गन्तुं सम्यक्न भवति तादृशवातावरणं सम्यक् न भवति यदा मनः सर्वदा बहिः यत्किमपि अस्ति बाह्यवस्तूनि यानि सन्ति तानि प्रति सर्वदा चिन्तनं करोति तदानीं तत्र मानसिकस्तरे सम्यक् वातावरणं न भवति अनन्तं प्रति गन्तुम् अनन्तं प्रति गमनाय अनुपयुक्तं भवति मनः अत्र बुद्धेहे मुक्तिः इति विषयः अस्ति यदा बुद्धिः विविधैः मतैः आसक्तिभिः च बद्धः बद्धं भवति बद्धा भवति तदा विस्तारं न प्राप्नोति बुद्धिः विस्तारं न प्राप्नोति यतोहि तत्र यदा मनसि जडबा जड भा, भावजडता वर्तते डाग्मास् यदा मनसि वर्तते तदानीम् अग्रगतिः न भवति यदा मनः भावजडतातः मुक्तं भवति तदानीमेव बुद्धेः मुक्तिः भवति अतः अत्र एकः महत्त्वपूर्णविषयः आध्यात्मिकविकासस्य चर्चायां महत्त्वपूर्णविषयः आगतः शरीरस्य चर्चा शरीर शरीरस्य शरीरस्य विषये अस्माभिः चर्चा कृता साधनया जीवात्मा परमात्मनः ऐक्यं भवति इति वयं जानीमः इदानीं मनसः चर्चा जायमाना अस्ति मनः तत्र वयं तु जगति एव वसामः तर्हि मनः मनसः जगता सह सम्बन्धः अस्ति मन मनसः मन मनसः द्वारा वयं जगता सह व्यवहारं कुर्मः कथं सः व्यवहारः भवेत् यदा वयं जगति व्यवहारं कुर्मः तत्र समस्याः आगच्छन्ति तदानीं मनः बहुषु जालेषु पतति येन तेन निर्मितं वातावरणं यदस्ति तदनन्तं प्रति गन्तुं सम्यक् भवति अनुपयुक्तं भवति तत्र त्रयः तत्र जालाः सन्ति तत्र बुद्धेः मुक्तिः एव अत्र अस्माकं विषयः अस्ति अस्य विषये इतोपि अग्रे विस्ताररूपेण चर्चां कर्तुं शक्नुमः इदानीं आ, आ, मा, तत्र किञ्चित् एव वक्तुम् इच्छामि तर्हि अत्र मनसः बुद्धि किं बुद्धेः मुक्त्यर्थं तत्र त्रयः वर वर्गाः सन्ति इति उक्तं तत्र जियो सेण्टिमेण्ट् सोशियो सेण्टिमेण्ट् ह्यूमेन् सेण्टिमेण्ट् इति वयं वदामः जियो सेण्टिमेण्ट् सोशियो सेण्टिमेण्ट् ह्यूमेन् सेण्टिमेण्ट् इत्येतेभ्यः मुक्तिः अस्य इदानीम् अस्य विषये परिचयः एव दीयते अयं विषयः महत्त्वपूर्णः विषयः अस्ति अग्रगतिं प्राप्तुं तत्र शरीरस्य विषये चर्चा कृता जीवात्मनः परमात्मानं प्रति गमनं साधनाद्वारा भवति तस्य विषये अपि चर्चा कृता इदानीं मनसः विषये चर्चा क्रियमाणः अस्ति तर्हि मनः कथं जगता सह व्यवहारः मनसः जग, जगता सह व्यवहारः करणीयः तर्हि तत्र जगति बहवः क्लेशाः सन्ति यत्र मनः मनसः अधोगतिः भवितुम् अर्हति अतः मनः सम्यक् मनस् मनसः अग्रगतिं प्राप्तुं सम्यक् वातावरणं भवेत् येन विस्तारः शक्यते तर्हि तदर्थं येते क्लेशाः ये सन्ति ते एव जियो सेण्टिमेण्ट् सोशियल् सेण्टिमेण्ट् ह्युमन् सेण्टिमेण्ट् इति वयं वदामः तर्हि अत्र किं विषयः कः इति चेत् बु बुद्धेः मुक्तिः एव विषयः अस्ति योगः इत्युक्ते मानसिकस्तरे विस्तारः इत्युक्ते बुद्धेः मुक्तिः बुद्धेः मुक्ति मुक्तिः इत्युक्ते तत्र ये क्लेशाः इदानीं मया उक्ताः जियो सेण्टिमेण्ट् सोशियल् सेण्टिमेण्ट् व्युमेन् सेण्टिमेण्ट् इत्येतेभ्यः बुद्धेः मुक्तिः एव मनसः वर्धनं तत्र जियो सेण्टिमेण्ट् इत्युक्ते किम् इति चेत् यत्र वयं वासं कुर्मः यस्मिन् स्थले वयं वासं कुर्मः तत्र अस्माकं प्रीतिः अधिका भवति अस्माकम् आकर्षणम् अधिकं भवति ओ मम देशः अस्ति इति मम देशस्य कृते अहं किमपि करोमि नेषनलिज़म् इति वयं वदामः यत्र वयं वसामः तत्र अस्माकं प्रीतिः भवति भक्तिः भवति भक्तिः इत्येव वदन् वदन्ति वस्तुतः भक्तिः इति भक्तिः इति तु केवलं परमात्मानं प्रति एव अत्र भक्तिः देशभक्तिः इति वदन्ति यतोहि ते तत्र वासं कुर्वन्ति अतः तत्र तस्मिन् स्थले तेषां प्रीतिः भवति एतदेव न्याशनलिजम् इति वदामः तत्र एतत्तु सर्वदा सर्वत्र वयं पश्यामः यत्र वयं वासं कुर्मः तत्र अस्माकं सम्बन्धः भवति देश देशे ये जनाः सन्ति अपि देशस्य देशं प्रति अस्माकं वात्सल्यं भवति अस्माकं प्रीतिः भवति अतः अस्मिन् देशे ये जनाः सन्ति तान् प्रति मम वात्सल्यम् अस्ति प्रीतिभावः अस्ति अन्ये अन्य अन्यस्मिन् देशे कश्चन वसति चेत् तं प्रति तु मम प्रीतिः नास्ति सः कः अहं न जानामि किमर्थं मम प्रीतिः तस्य तं प्रति भवेत् इत्यपि प्रश्नः भवितुमर्हति तर्हि यः यः यः पुरुषः यः मनुष्यः अस्मिन् देशे वसति तं प्रति मम वात्सल्यमस्ति तं प्रति अहं सामीप्यम् अनुभवामि यतोहि वयं तु समानदेशे सा, वसामः इति कृत्वा स्वाभाविकतया स सा, सामीप्यम् अनुभूयते एतादृशसामीप्यं यद्वयम् अनुभूयते तत्तु किं भवति इति चेत् मनसि एकं क्लेशं स्थापयति मनसि मनः बद्धं भवति अनेन अनेन किं भवति इति चेत् अत्र अस्मिन् देशे ये वा ये वासं न कुर्वन्ति तान् प्रति अस्माकं भ अस्माकं प्रीतिः न भवति तर्हि अनेन किं भवति सीमा भवति तत्र सीमा भवति अत्र अस्मिन् देशे ये सन्ति तान् प्रति मम प्रीतिः अस्ति एतस्मात् देशात् बहिः ये सन्ति तान् प्रति मम सामीप्यं नास्ति मम प्रीतिभावः नास्ति मम भ्रातृत्वं नास्ति इति तादृशक्लेशः भवति तादृशक्लेशः तादृशसीमा मनसः तादृशसीमा एव वयं जियो सेण्टिमेण्ट् इति वयं वदामः तत्र एतादृश बहवः जनाः सन्ति यदा वयं देशं प्रति प्रीतिभावम् अनुभवामः एतादृशं वयं सर्वदा वयं पश्यामः ये अस्य विषये अधिकं वक्तव्यम् इति नास्ति वयं जानीमः एतस्माद् उपरि वयं गच्छामः चेत् तत्र सोषियल् सेण्टिमेण्ट् सोषियल् सेण्टिमेण्ट् इत्युक्ते अस्मिन् रिलिजियन् मध्ये ये सन्ति तान् प्रति मम प्रीतिभावः अस्ति मम सामीप्यमस्ति अस्मात् बहिः ये सन्ति तान् प्रति मम प्रीतिभावः नास्ति ये हिन्दूस् इति वदन्ति तत्र ता ये ये हिन्दुयिजं फालो कुर्वन्ति हिन्दुयिजम् इत्यस्य अनुसरणं कुर्वन्ति ते जनाः एव मम समीपाः तान् प्रति मम प्रीतिभावः अस्ति अन्ये मतानां प्रवर्तकाः अथवा अनुसरणं ये कुर्वन्ति तेषां विषये मम प्रीतिभावः नास्ति तेषां प्रति मम भ्रातृत्वं नास्ति यतोहि अयं मनुष्यः uh, अस्मिन् अस्मिन् समूहे वर्तते इति कृत्वा मम प्रीतिभावः अस्ति अत्र देशाधारीकृत्य नास्ति परन्तु अत्र समूहाधारीकृत्य प्रीतिभावः भ्रातृत्वं सामीप्यं भवति द जियो सेण्टिमेण्ट् इस् बै डिफैन्ड् बै फिसिकल् लोकेशन् दत् तदेव नेशनलिज़म् इति वयं वदामः अत्र तु सोशियल् सेण्टिमेण्ट् इत्युक्ते ये अस्मिन् समूहे सन्ति तान् प्रति मम प्रीतिभावः अत्र तु फिसिकल् बौण्ड्रीस् इति नास्ति अत्र तु सो सोशियल् बौण्ड्रीस् अस्ति तत्र ये जनाः अस्मिन् समूहे सन्ति तान् प्रति मम प्रातृत्वम् अस्ति अन्ये जनाः अस्मात् बहिः ये जनाः सन्ति तान् प्रति तु मम भ्रातृत्वं नास्ति ममता नास्ति किमपि नास्ति अयमपि एकः क्लेशः अस्ति तृतीयः अस्ति ह्यूमेन् सेण्टिमेण्ट् ह्युमेन् सेण्टिमेण्ट् इत्युक्ते ये मनुष्याः सन्ति तान् प्रति मम भ्रातृत्वम् अस्ति प्रीतिभावः अस्ति परन्तु अन्ये अन्ये जीवाः यथा पशवः सन्ति अथवा पक्षिणः सन्ति सस्यानि सन्ति तान् प्रति मम प्रीतिभावः नास्ति तेषां तु मम आदरः नास्ति ते कथमपि भवेयुः तत्र मम चिन्ता नास्ति अत्र वयं पश्यामः प्रत्येकं प्रत्येकं स्तरः पूर्वस्मात् स्तरात् इतोपि विस्तृतः अस्ति जियो सेण्टिमेण्ट् इत्यस्य अपेक्षया सोशियल् अस्ति सोशियल् सेण्टिमेण्ट् इत्यस्य अपेक्षया ह्यूमेन् सेण्टिमेण्ट् इतोपि विस्तृतः अस्ति तत्र एतेषु त्रिषु स्तरेषु जियो सेण्टिमेण्ट् एव बहु स्थूलतरः अस्ति तत्तु देशाधारीकृत्य अथवा भूमि भूमि भूमेः भागमाधारीकृत्य यः या, या सीमा भवति तादृशसीमा मनसि मनसः बन्धनं करोति यतोहि वयं वयं किं वदामः वसुधैव कुटुम्बकम् इति भावः भवेत् अस्माकं मनसि समत्वं भवेत् समत्वं भवति एतादृश जियो सेण्टिमेण्ट् वर्तते चेत् समत्वं क कत, कथं भवितुम् अर्हति यतोहि अन्यजनानां ये जनाः अन्ये देशे अन्यदेशे वसन्ति अन्यदेशे वसन्ति तान् प्रति तु मम वात्सल्यं नास्ति मम प्रीतिभावः नास्ति तदानीं तत्र मनसि डिविज़न् अस्ति खलु विभजनम् अस्ति मनसि तर्हि तत्र सोशियल् सेण्टिमेण्ट् इतोपि विस्तृतं वर्तते तत्रापि सोशियल् सेण्टिमेण्ट् इत्यस्मिन् किम् अस्ति इति चेत् ये जनाः अस्मिन् समूहे सन्ति यत्र कुत्रापि यस्मिन् कस्मिन्नपि देशे भवतु इत्युक्ते ये हिन्दुयिजम् इत्यस्य अनुयायिनः सन्ति यस्मिन्नपि कस्मिन्नपि देशे भवतु ते मम प्रीति प्रीतेः अधिकारिणः सन्ति केवलं तान् प्रति एव मम प्रीतिभावः वात्सल्यं वर्तते अन्ये जनाः ये सन्ति ये हिन्दूयिसम् इत्यस्य अनुना अनुयायिनः न सन्ति तान् प्रति मम वात्सल्यं नास्ति मम द्वेषभावः अस्ति इति इति तदपि तदपि बु बुद्धेः तत्र बन्धनमस्ति मनसः बन्धनम् अतः अत्र सोशियल् सेण्टिमेण्ट् इतोपि विस्तृतः अस्ति पूर्वस्मात् परन्तु तदपि मनसि बन्धनमेव स्थापयति एकतीव्रं तीव्रं बन्धनं स्थापयति एतत्तु सोशियल् सेण्टिमेण्ट् जियो सेण्टिमेण्ट् इत्यस्य अपेक्षा अपेक्षा इतोपि विस्तृतं वर्तते इदानीं तत्र ह्यूमेन् सेण्टिमेण्ट् इति वयं पश्यामः चेत् तदानीं तत्र मनुष्याः तु न केवलम् अस्मिन् देशे सर्वत्र वसन्ति सर्वेषु देशेषु मनुष्याः सन्ति केवलं तान् एव मम वात्सल्यम् अस्ति मम प्रीतिभावः अस्ति अतः वयं पश्यामः चेत् सर्वत्र वर्तन्ते इति कृत्वा तत्र इतोपि वस् विस्तृतम् अथवा जियो सेण्टिमेण्ट् इत्यस्य अपेक्षया ह्युमन् सेण्टिमेण्ट् इतोपि अस्ति मनुष्यान् प्रति मम सामीप्यं वर्तते परन्तु पशून् प्रति मम सामीप्यं नास्ति पशून् प्रति मम प्रीतिभावः नास्ति यतोहि मनुष्याः पशून् खादन्ति खलु किमर्थं खादन्ति यतोहि तेषां हृदि तत्र प्रीतिभावः नास्ति वात्सल्यं नास्ति मन पशून् प्रति पशोः हननं क्रियते चेत् चिन्ता नास्ति किमर्थं मम खादनं बहु मुख्यम् अस्ति अहं तु मनुष्यस्य हननं न करोमि पशोः हननं करोमि तत्र तत्र किं भवति पशोः एव हननं करोमि खलु इति तादृशभावना भवति इत्युक्ते तत्र सोषियल् सेण्टिमे किं ह्यूमन् सेण्टिमेण्ट् इति आयाति मनुष्यान् प्रति प्रीतिः अस्ति परन्तु पशून् प्रति नास्ति इति एव पशुहत्या सर्वत्र भवति यतोहि तेषां पशून् प्रति सम्बन्धः नास्ति इदानीं सस्यानां प्रति किं वक्तव्यं सस्यानां विषये जनाः न कोऽपि न चिन् सस्यानां विषये तर्हि यदा बुद्धेः मुक्तिः भवति एतैः वर्गेभ्यः एतेभ्यः वर्गेभ्यः यदा मुक्तिः मुक्तिः भवति तदानीं मनः विस्तृतं भवति द मैण्ड् बिकम्स् ओपन् इट् फील्स् वन्नेस् एण्ड् अ ब्रदर्हु ब्रदर्हुड् वित् एव्रिथिङ्ग् इन् दिस् यूनिवर्स् एतदेव वास्तविकतया समत्वं देट् इस् ट्रू यूनिवर्सल् युनिवर्सलिटि अस्मिन् वातावरणे एव योगसाधना सम्यक् भवति अस्मिन् वातावरणे एव योगसाधना सम्यक् भवति तर्हि अयं विषयः बहु महत्वपूर्णविषयः बुद्धेः मुक्तिः बुद्धेः मुक्तिः कथं भवति इति चेत् एतादृशसीमाः यदा ना भवन्ति जियो सेण्टिमेण्ट् सोशियल् सेण्टिमेण्ट् ह्युमन् सेण्टिमेण्ट् इति एतादृशसीमाः यत्र न भवन्ति तत्रैव बुद्धेः मुक्तिः भवति मनसः वर्धनं भवति तदानीं साधनायाः कृते सम्यक् वातावरणं भवति योगनिष्ठजीवने कीदृशभावना अपेक्षिता इति चेत् अत्र जगति यत्किमपि अस्ति तत्सर्वं परमात्मनः एव अंशः अस्ति परमात्मनः सन्तानः सन्तानः सन्ति इति एतादृशभावना यत्र भवति तर्हि तत्र एव साधनाद्वारा परमात्मनः सह ऐक्यं सम्भवति अत्र अस्मिन् जगति यत्किमपि अस्ति तत्तु सृष्टिचक्रद्वारा सर्वम् आगतं परमात्मनः तः एव परमात्मातः एव सर्वम् आगतं तर्हि सर्व सर्ववस्तु अस्मिन् जगति शुद्धपुरुषात् एव वर्तते सु आविर्भूतम् तत्र प्रकृति प्रकृतिपुरुषयोः प्रक्रियाद्वारा सञ्चारधारा इति इति द्वारा सृष्टेः निर्माणं जातं तर्हि एतादृश जडता जडतातः यदा बुद्धेहे मुक्तिः भवति तदानीम् एव वसुधैवकुटुम्बकम् इति वयम् अनुभोक्तुं शक्नुमः वास्तविकतया अयमेव योगः अयमेव योगः मानसिकस्तरे योगः शारीरिकस्तरे आध्यात्मिकस्तरे अस्माभिः चर्चितम् इदानीं योगः मानसिकस्तरे कथं भवति इति चेत् बुद्धेः मुक्तिः यदा शारीरिकस्तरे योग योगद्वारा ये विषयः ये आ, ये विषयाः पूर्वं चर्चिताः तान् द्वारा तत्र आधारः भवति मनसः कृते येन मनसः वर्धनं भवितुमर्हति तदनन्तरं बुद्धेः मुक्तिः एतेभ्यः वर्गेभ्यः जियो सेण्टिमेण्ट् सोशियल् सेण्टिमेण्ट् डाग्मास् ह्युमन् सेण्टिमेण्ट् इति तेभ्यः यदा मुक्तिः भवति तदानीं तत्र मानसिकस्तरे वर्धनं भवति मानसिकस्तरे सम्यक् वातावरणं भवति शारीरिकस्तरे सम्यक् वातावरण वातावरणं मनसः कृते मानसिकस्तरे सम्यक् वातावरणम् आध्यात्मिकवर्धनार्थं यत्र साधना आध्यात्मिकस्तरे साधनां वयं कुर्मः चेत् तदानीं परमात्मनः भावं स्वीकृत्य साधनं यदा वयं कुर्मः तदानीम् अग्रगतिः सुलभं भवति यदा मनसि एतादृश विभजनानि विभागाः भवन्ति तदानीम् अग्रगतिः न भवति मनसः अग्रगतिः कथं भवति इति चेत् एते ये एतानि बन्धनानि यानि तेभ्यः मुक्तिः यदा भवति तदानीमेव साधनायाम् अग्रगतिः सम्यक्तया भवितुम् अर्हति अयमेव विषयः अद्य वक्तुं प्रस्तौतुम् इच्छामि कोऽपि प्रश्नः अस्ति चेत् वदन्तु नो चेत् इतः अग्रे अस्माकं करपत्रं प्रति गन्तुं शक्नुमः मुक्तिः मनसा भवति वा बुद्ध्या भवति यदा मनसि एतादृशविभागाः न सन्ति तदानीं मनसः मनसि सम्यक् वातावरणं बुद्धेः मुक्तिः भवति बुद्धेः मुक्तिः भवति बुद्धेः मुक्तिः भवति चेत् मनसः अग्रगतिः भवति मनसः मुक्तिः तु अन्ततो गत्वा साधनाद्वारा एव भवति खलु मनसः मुक्तिः मनस् मन एव इन्स्ट्रुमेण्ट् uh, अस्ति तद् मनः एव मनः एव इन्स्ट्रुमेण्ट् मनस् मनसाद्वारा वयं साधनां कुर्मः uh -huh. अन्ततो गत्वा मन मनः मनं मनः अपि अतिरिच्य अग्रे गच्छामः अतिक्रमणं कुर्मः यदा मया आदौ उक्तं मनसः अपि अतिक्रमणं कुर्मः एतादृश अतिक्रमणं कथं कर्तुं शक्यते इति चेत् यदा बुद्धेः मुक्तिः भवति तदानीमेव बुद्धेः मुक्तिः एतादृशभावजरता यदा भवति तदानीं बुद्धेः मुक्तिः न भवति यदा बुद्धेः मुक्तिः न भवति तदानीं मनसि क्लेशः भवन्ति सम्यक् वातावरणं न भवति साधनां कर्तुं साधनायाम् अग्रगतिः न भवति ओके अस्तु तर्हि मनसः बुद्धिः समानं वा किं मनसः बुद्धिः समानं वा न मनसः बुद्धिः दो दो न द्वपि समानं नास्ति द्वौपि भिन्नौ मनः भिन् भिन्नं बुद्धिः भिन्नः भिन्ना बुद्धिः तु मनसि एव भवति खलु परन्तु भिन्नं हा परन्तु भिन्नमेव आम् परन्तु भिन्नं मनसः एव बन्धनस्य अपि कारणं मुक्तः अपि कारणं खलु मनः एव अन्ततो मनः एव किं बन्धनस्य कारणं मुक्तेः अपि कारणं तत्र मुक्तिः मनसः मुक्तिः इत्युक्ते तत्र किम् इति चेत् अन्ततो यः स्तरः अस्ति तदेव मनसः मुक्तिः मनसः मुक्तिः इत्युक्ते यत्र मनः विलीनं भवति परमात्मनि तदानीं मनसः मुक्तिः भवति यदा बुद्धेहे मुक्तिः भवति तदानीं मनसि बन्धनानि अपि अपगच्छन्ति इत्युक्ते तयोः गाढसम्बन्धः अस्ति मनसः बुद्धेः गाढसम्बन्धः अस्ति अतः इदानीं पृथक् कर्तुम् चेत् बुद्धिः भिन्ना मनः भिन्ना भिन्नम् इति चिन्तयितुं शक्नुमः परन्तु तयोः गाढः सम्बन्धः अस्ति बुद्धेः मुक्तिः नास्ति चेत् मनसि बन्धनानि भवन्ति तर्हि मनसः विस्तारः न शक्यते मनसः विस्तारः कदा शक्यते इति चेत् यदा बुद्धेः मुक्तिः भवति एतादृशभावजडता न भवति तदानीं बुद्धेः मुक्तिः भवति बुद्धेः मुक्तिः भवति चेत् मनसि बन्धनानि न भवन्ति बन्धनानि न भवन्ति चेत् अग्रगतिः साधनायाम् अग्रगतिः भवितुम् अर्हति धन्यवादः इति मम चिन्तनम् अस्ति महोदय अपि शृणोति इतोपि किमपि अस्ति चेत् सः वक्ष्यति इति एताग्र एतावता मम चिन्तनमेवम् अस्ति इति अथवा मम अवगमनम् एवमस्ति अस्तु तर्हि इदानीम् अत्र अस्माकं विषयः अस्ति अस्मिन् जगति मनुष्याः कथं जीवेयुः इति विषयः अस्ति तर्हि अत्र अस्माभिः किमुक्तम् इति चेत् इत, अत्र सृष्टिचक्रे षड्वादनात् आरभ्य जीवानाम् आविर्भावः भवति यत् यदा तातमोगुणस्य प्रभावः अधिकः भवति चित्तस्य उपरि वस्तुत हक्षितितत्वस्य उपरि तदानीं जीवानाम् आविर्भावः भवति तस्मिन् क्रमे दशवादने मनुष्याणाम् आविर्भावः मनुष्येषु चैतन्यं सम्पूर्णतया प्रतिबिम्बितं वर्तते मनुष्येषु स्वतन्त्र इच्छा वर्तते ते पशुजीवनं व्यवहर्तुं शक्नुवन्ति अथवा मानवजीवनस्य पालनं कर्तुं शक्नुवन्ति इति तत्सर्वम् अस्माभिः दृष्टं तदनन्तरम् अस्माभिः चर्चितं यत् अत्र प्रतिसञ्चर्धारायां यदा जीवानाम् आविर्भावः भवति तदानीं प्रकृतेः प्रभावः क्रमेण न्यूनः न्यूनीभवति प्रकृतेः प्रभावः इत्युक्ते आदिमस्तरे ये जीवाः सन्ति तेषु प्रकृतेः प्रभावः अधिकः भवति दशवादने यदा मनुष्यानाम् आविर्भावः भवति तत्र प्रकृतेः प्रभावः न्यूनः जातः परन्तु इतो इतोपि प्रकृतेः ब तु वर्तते अतः एव तेषाम् इतोपि दशवादनात् द्वादशवादनपर्यन्तं गमनं गतिः आवश्यकी अस्ति तर्हि अग्रगतिः कथं भवति इति चेत् यदा मनुष्यः प्रकृतेः नियमानां पालनं करोति अनन्तरं तत्र तत्र चैतन्यस्य प्रतिबिम्बस्य विस्तारं यदा सम्पादयन्ति तदानीमेव अग्रगतिः भवति चैतन्यस्य प्रतिबिम्बस्य विस्तारः कथं भवति इति चेत् मनः यदा शुद्धं भवति चित्तशुद्धिः यदा भवति मनः शुद्धं भवति अपि च साधनायाम् अग्रगतिः भवति तदानीं तत्र प्रकृतिबन्धनात् मुक्तिः भवति तदर्थं विषयद्वयम् अपेक्षितम् एकं तु प्रकृतेः नियमानां नियमानां पालनम् अन्य तु चेष्टा अपेक्षिता अस्ति साधनाद्वारा चेष्टा अपेक्षिता अस्ति येन चैतन्यस्य प्रतिबिम्बः प्रतिबिम्बे स्पष्टता भवति इति तत्र दृष्टं तर्हि ये जनाः प्रकृतेः नियमानां पालनं कुर्वन्ति अपि च साधनां कुर्वन्ति तेषाम् अग्रगतिः झटिति भवति ये तु प्रकृतेः नियमानां नियमानां पालनं न कुर्वन्ति अपि च साधनापि साधनामपि न कुर्वन्ति तेषु किं भवति इति चेत् ते तु तेषाम् अधोगतिः अवश्यमेव भवति यतोहि तेषां कर्मफलानि भवन्ति कर्मणां कर्मणां कर्मफलानि भवन्ति अतः तेषां तु पुनर्जन्म अवश्यं भवति यतोहि मनसः वर्धनं न भवति मनसः अधोगतिः भवति एतादृशकार्यं कार्याणि कुर्वन्ति चेत् मनसः अधोगतिः भवति अतः तेषां तु पुनर्जन्म अवश्यमेव भवति तर्हि एतद्द्वयं प्राप्तुम् अग्रगतिं प्राप्तुं दशवादनात् द्वादशवदन वादवदनपर्यन्तं गमनार्थं विषयद्वयम् अपेक्षितम् इति उक्तं तर्हि तत् कर्तुम् उत्तमकर्माणि अस्माभिः करणीयानि तानि एव अत्र विद्यामाया इति वयं वदामः तत्र विषयद्वयम् अस्ति वैराग्यं विवेकः इति वैराग्यम् इत्युक्ते विरागस्य भावः जगति वयं वसामः परन्तु जगति यानि वस्तूनि सन्ति तेभ्यः वयं रञ्जितं न भवामः तेभ्यः अस्माकम् इच्छा न भवति जगति वसामः इत्युक्ते तत् जगत् जगत् त्यक्त्वा वयम् अन्यत्र गच्छामः इति नास्ति जगति वसामः परन्तु जगति यानि वस्तूनि ते तेषां विषये अस्माकं व्यवहारः कथं भवेत् इति वयं जानीमः तेभ्यः वस्तुभ्यः अस्माकं रञ्जनं न भवति इट् विल् नाट् बि कलर्ड् बै दि आब्जेक्ट्स् आफ़् द वर्ल्ड् जगति वसामः परन्तु तेषां प्रभावः अस्माकम् उपरि न भवति तेषां प्रयोगः यथा आवश्यकं तथा कुर्मः परन्तु तेषां विषये अस्माकं संलग्न संलग्नता न भवति इति एकः अस्ति वैराग्यम् इति विरागस्य भावः अनन्तरं द्वितीयमस्ति किम् उचितम् किम् अनुचितम् इति विभजनं कर्तुं शक्नुमः तदेव अत्र विवेकः इति वयं वदामः यता मधुपान मधुपानस्य मधु वर्तते तत्तु मधुपानं कोपि करोति चेत् तत्तु सम्यक् विषयः नास्ति परन्तु मधु यदा औषधरूपेण कोऽपि स्वीकरोति तदानीं तत्र तु क्लेशः नास्ति यतोहि शरीरं तु अपे अपेक्षितमस्ति अग्रगतिं प्राप्तुम् आध्यात्मिकविकासः कदा भवति शरीरं नास्ति चेत् आध्यात्मिकविकासः नास्ति खलु अतः शरीरं स्वस्थं भवेत् तदर्थम् औषधरूपेण मधु स्वीकर्तव्यं चेत् तत्र हानिः नास्ति एतादृशविवेकः तत्र वस्तुनः विवेकः नित्यानित्यवस्तुनः विवेकः यदा भवति तदेव तत्र विवेकः इति वयं वदामः किम् उचितं इति एतादृश विभजनं यदा शक्यते तदेव विवेकः इति वयं वदामः विवेकः वैराग्यम् इति उत्तमकर्माणि तदाधारेण यदा कर्म क्रियते तद् उत्तमकर्माणि विद्यामाया इति वयं वदामः इदानीं तु अविद्यामाया इति विषये अग्रे चर्चा भविष्यति अविद्यामाया इत्युक्ते के इत्युक्ते का इति इदानीं वयं पश्यामः तर्हि शेर् करोमि एकक्षणम् दृश्यते वा चित्रभक्नी पठति वा आं भगिनि तः आमाम् दुष्कर्माणि अथवा अविद्यामाया विद्यामायाः विपरीतं कर्माणि यानि चैतन्यस्य प्रतिबिम्बं मन्दं कुर्वन्ति अपि च प्रकृतेः नियमविरुद्धं गन्तुं नयन्ति तानि दुष्कर्माणि सन्ति जीवात्मनः विकासः इत्युक्तौ केवलं चैतन्यस्य प्रतिबिम्बं स्पष्टतरं अपि च घनत्वेन अधिकं भवति यतोहि मनः सूक्ष्मतरं भवति एतत् तदा एव सम्भवति यदा सूक्ष्मतां प्रति गतिवेगः वर्धते यदि सूक्ष्मतां प्रति गतिवेगः वर्धते तर्हि एव मनः सूक्ष्मतरं भवितुम् अर्हति मनः यदा अधिकं स्थूलेषु विषयेषु लीनं भवति तदा जीवात्मनः अधोगतिः भवति यतः प्रकृतेः अधिकतया अभिव्यक्तया चैतन्यस्य प्रतिबिम्बं मन्दं भवति स्थूलतायां मनः संलग्नं चेत् प्रकृतेः प्रभावे अधिकं तिष्ठति अस्य परिणामः भवति यत् जीवात्मनः अग्रगतिः स्थगिता भवति यानि कर्माणि प्रकृतेः नियमविरुद्धं गन्तुं नयन्ति तानि सूक्ष्मतां प्रति विकासस्य गतिम् अपि स्थगयन्ति किमर्थं चेत् प्रकृतेः दूषणस्य दण्डस्य परिणामः अग्रगतेः प्राक् अनुभोक्तव्यः जीवात्मा च तत्कालं यावत् सूक्ष्मतां प्राप्तुं निरुद्धः भवति अत्र दुष्कर्माणि इत्युक्ते किम् इति वर्णनमस्ति दुष्कर्मं दुष्कर्मण दुष्कर्मम् इत्युक्ते यानि कर्माणि प्रकृतेः नियमविरुद्धं भवति तत्सर्वं दुष्कर्माणि सन्ति दुष्कर्माणि किं ते जीवात्मनः विकासे बाधा कुर्वन्ति तत्र अग्रगतिः न भवति यतो मनुष्ये तु चैतन्यस्य प्रतिबिम्बं स्पष्टतरम् अस्ति परन्तु एतादृशदुष्कर्माणि कुर्वन्ति कुर्वन् जनानां तत्र तेषाम् अग्रगतेः बाधा भवति अग्रगतिः न भवति मनसि मनस्य गतिः सूक्ष्मतरं भवति चेदेव अग्रगतिः अस्ति परन्तु यदा दुष्कर्माणि सन्ति तदा तत, तत्र मनस्य अग्रगतिः न भवति यदा मनसि गतिः सूक्ष्मतां प्रति न वर्धते चेत् तत्र न तत्र मनसि गतिः सूक्ष्मतां प्रति सूक्ष्मता वर्धते चेत् गतिः भवति वा तत्र तु संशयः अस्ति एतत् एव सम्भवति यदा सूक्ष्मतां प्रति गतिवेदः वर्धते न जानामि तत्र तत्र किं मनः यदा यदा तत्र गतिहि सूक्ष्मतां प्रति गतिहि वर्धते तदा एव मनः सूक्ष्मं भवितुमर्हति खलु आम् ये, मनः इदानीं स्थूलं वर्तते यदा वयम् उत्तमकर्माणि कुर्मः एकं तु किमस्ति तत्र प्रकृतेः नियमानां नियमानां पालनं द्वितीयं तु साधनाद्वारा चैतन्यस्य प्रतिबिम्बः इतोपि स्पष्टः स्पष्टः भवेत् तदर्थं वयं प्रयासं कुर्मः तदानीं किं भवति अग्रगतिः भवति मनः अपि सूक्ष्मं भवति यावत्पर्यन्तं मनः स्थूलविषयेषु संलग्नं भवति तदानीम् अग्रगतिः न भवति अधोगतिः एव भवति किमर्थम् इति चेत् चैतन्यस्य प्रतिबिम्बः प्रतिबिम्बः मन्दः भवति यत्र प्रकृतेः प्रकृतेः बन्धनानि अधिकानि भवन्ति यतोहि मनः स्थूलेषु विषयेषु संलग्नम् अस्ति तदानीं प्रकृतिबन्धने इतोपि अधिक अधिके अधिकवशे भवति मनः प्रकृतेः बन्धने भवति भगिनी तत्र सूक्ष्मता इति गुणः अस्ति वा सूक्ष्मता इति गन्तव्यस्थानम् अस्ति वा सूक्ष्मतां प्रति गमनमस्ति सूक्ष्मतरं भवति कथं हा सूक्ष्म इत्युक्ते परमपुरुषः सूक्ष्मः विषयः अस्ति सूक्ष्मतां प्रति गमनम् इत्युक्ते दशवादनद्वादशवादनपर्यन्तं गमनम् एव सूक्ष्मगतिः अस्ति सूक्ष्मगत्यां यदा वयं भवामः तदानीं तत्र किम् अपेक्षितं सूक्ष्मगतिं प्राप्तुं किम् अपेक्षितम् इति चेत् साधना अपेक्षिता प्रकृतिनियमानां पालनम् अपेक्षितं तदानीं सूक्ष्मं प्रति गमनं भवति यदा सूक्ष्मं प्रति गमनम् अस्ति तदानीं मनसि सूक्ष्मता अपि आगच्छति मनः अपि सूक्ष्मं भवति मनः स्थूलं भवति चेत् सूक्ष्मं प्रति गन्तुं न शक्नुमः परमपुरुषः सूक्ष्मः विषयः अस्ति तदर्थं मनः सूक्ष्मं भवति चेदेव तत्र वयं गन्तुं शक्नुमः यतोहि इत्युक्ते दशवादनात् द्वादशवादनपर्यन्तं गमनार्थं तत्र सत्त्वगुणस्य आधिक्यम् अपेक्षितमस्ति परन्तु तादृशस्तरमपि आयाति यत्र सत्त्वगुणमपि अति अतिक्रमणं कृत्वा वयम् अग्रे गच्छामः यतोहि परमपुरुषः निर्गुणः निराकारः अस्ति तर्हि गुणातीतः गुणातीतातीतावस्थाम् अस्माभिः प्राप्तव्यं तदर्थं गुणातीतावस्था प्राप्तव्या तदर्थं तत्र किमपेक्षितम् इति चेत् मनसः वर्धनम् अपेक्षितम् अपेक्षितमस्ति मनः इतोपि सूक्ष्मः सूक्ष्मं सूक्ष्मं सूक्ष्मं यदा भवति तदानीं सूक्ष्मं प्राप्तुं शक्नोति अस्तु तर्हि मनः सूक्ष्मतरं भविष्यति यदा अग्रगतिः भवति आ, अग्रगति हा अग्रगतिः यद् मनः यदा स्थूलविषयेषु संलग्नं भवति तदानीम् अग्रगतिः न भवति तर्हि अग्रगतिं प्राप्तुं किम् अपेक्षितं मनः कथं सूक्ष्मं भवितुम् अर्हति इति चेत् तत्र विषयद्वयमस्ति तत्र एकं तु प्रकृतिनियमानां पालनं द्वितीयं तु साधना विषयद्वयेन मनः यत्र साधनायां लग्नं भवति मनः तर्हि कालान्तरेण किं भवति इति चेत् मनः इतोपि सूक्ष्मं भवति सूक्ष्मं भवति क्रमेण सूक्ष्मं सूक्ष्मं सूक्ष्मं भवति यदा सूक्ष्मं भवति तदानीं किं भवति इति चेत् तत्र सूक्ष्मतां प्रति अपि ग गतिः अग्रगतिः सुलभेन भवति परमपुरुषः सूक्ष्मः तादृशसूक्ष्मावस्थां प्राप्तुं मनः सूक्ष्मतरम् अस्ति चेत् तदानीं सुलभेन तत्र परमात्मनः सामीप्यं प्राप्तुं शक्नुमः अस्तु तर्हि यदा मनः स्थूलविषयं प्रति चिन्तयति तर्हि तत्र अधोगतिः भवति अतः तत्र यत् चैतन्यस्य प्रतिबिम्बं स्पष्टतया अस्ति तस्य इदानीं प्रतिबिम्बं मन्दं भवति स्थूलतया मनः संलग्नं चेत् प्रकृतेः प्रभावः तत्र प्रकृतेः प्रभावम् अधिकं तिष्ठति अतः अग्रगतिः स्थगिता भवति अग्रगतिः न भविष्यति तत्र प्रकृतेः नियमविरुद्धम् अपि प्रकृतेः नियमं पालनं न कुर्मः चेदपि तदपि स्थगनस्य कारणं भवति मनसि विकासस्य स्थगनस्य कारणं भवति किमर्थं चेत् प्रकृतेः नियमं पालनं न कुर्मः चेत् तत्र तु दण्डस्य अपि व्यवस्था भविष्यति अतः तेन परिणामेन अग्रगतिः सम्यक्तया न भविष्यति अग्रगतिः न भवति तत्र मनसि इतोपि वन्दनं भवितुमर्हति तावत्पर्यन्तं यावत्पर्यन्तं मनसि सूक्ष्मता न अस्ति तावत्पर्यन्तम् अग्रगतिं प्राप्तुं न शक्यते तदेव मम चिन्तनम् आमां आम, सम्यक् भगिनी समीचीनं इतिते तत्र एतादृश उत्तमकार्याणि न कुर्मः चेत् तदानीं किं भवति इति चेत् मनसः अधोगतिः भवति अधोगतिः भवति चेत् तस्य तात्पर्यं किम् इति चेत् यदा मनसः वर्धनं न भवति अधोगतिः भवति तदानीं पुनर्जन्म अवश्यं भवति तर्हि अग्रिमजन्मनि मनः मनसः तादृश अवस्था न भवति यत्र पुनः शरीर तत्र मानवशरीरं प्राप्तुं तादृश अवस्था न भवति मनसः यतोहि अधोगतिः जाता तर्हि अधोगतिः जाता इति चेत् तत्र मनसः यादृश अवस्था अस्ति तदाधारीकृत्य तादृश उचितं शरीरं लभ्यते तत्र उचितं शरीरं पशोः शरीरं वा पक्षिणः शरीरं वा अथवा यत्किमपि एक तत्र एककोशः जीवः अस्ति तस्य शरीरं वा यत्किमपि भवितुम् अर्हति तत्र अस्माकं मनः कियत्पर्यन्तम् अधोगतिः मनसः भव अभवत् इति आधारीकृत्य अग्रिमजन्मनि तादृशशरीरं लभ्यते यतोहि एत, तत्र मनसि तत्र चैतन्यस्य प्रतिबिम्बः स्पष्टः नास्ति अस्माभिः किमुक्तं मनुष्येषु चैतन्यस्य प्रतिबिम्बः स्पष्टतरः अस्ति अन्येषाम् अपेक्षया इति उक्तम् यदि वयं तादृशकर्माणि कुर्मः येन चैतन्यस्य प्रतिबिम्बः स्पष्टता नास्ति तत्र मनसि बहु मलिनानि सन्ति दोषाः सन्ति अग्रिम अग्रिमजन्म अग्रिम जन्मतो अवश्यं भवति तर्हि अग्रिम जन्मनि तदनुगुणं मनसः अनुगुणं शरीरम् अस्माभिः लभ्यते यतोहि इदानीम् अग्रिमजन्मनि मनुष्यशरीरं प्राप्तुं तादृश उचितं मनः नास्ति इति कृत्वा अग्रिमजन्मनि तदनुगुणं शरीरं वयं प्राप्नुमः परन्तु अस्माकं लक्ष्यं किम् इति चेत् मनसः वर्धनमेव अस्माकं लक्ष्यं मनसः विकासः मनसः विस्तारः अस्माकं लक्ष्यमस्ति येन मनः सूक्ष्मतरं भवितुमर्हति यदा सूक्ष्मतरं भवति तदानीम् अस्माभिः परमात्मनः सामीप्यं प्राप्नुमः यदा मनः सूक्ष्मं सूक्ष्मं सूक्ष्मं भवति तर्हि तादृश अवस्था भवति यदा मनसातीतः इति अवस्था भवति तदानीं तत्र परमात्मनः सह जीवात्मनः ऐक्यं सम्भवति तर्हि अस्मिन् परिच्छेदे इत्युक्ते आरम्भतः अस्माभिः किम् उच्यमानमस्ति इति चेत् मनुष्येषु अनन्तेषणा वर्तते तादृश अनन्तेषणा एव मनुष्याणां विलक्षणः असाधारणः धर्मः वर्तते एतादृशः धर्मः सर्वेषु मनुष्येषु वर्तते अन्येषु जीवेषु नास्ति अयमेव मानवः धर्मः तर्हि ये जनाः मानवधर्मस्य पालनं कुर्वन्ति ते दशवादनात् द्वादशवादनपर्यन्तं झटिति गच्छन्ति अग्रगतिं प्राप्नुवन्ति ये जनाः मानवधर्मस्य पालनं न कुर्वन्ति तर्हि ते अपि दशवादनात् द्वादशवादनपर्यन्तं गच्छन्ति परन्तु अनन्तरं गच्छन्ति इदानीं तेषां ते कर्माणि तथा नास्ति उचितानि न इति कृत्वा तेषाम् अधोगतिः भवति अधोगतिः यदा भवति तदानीं पुनर्जन्म भवति पुनर्जन्म भवति चेत् षड्वादनात् दशवादनपर्यन्तं कुत्रचित् तेषां पुनर्जन्म भवति तत्र यः कोऽपि जीवः भवितुमर्हति तदनुगुणं यदा जीव पुनर्जन्म प्रा ते प्राप्नुवन्ति तदानीं पुनः प्रयत्नेन पुनः अग्रगतिः भवति अग्रगतिः यदा भवति तदानीं तत्र मानवशरीरं लब्धुं शक्यते तदानीं पुनः ते प्रयत्नं कुर्वन्ति चेत् अग्रगतिं प्राप्नोति प्रयत्नं न कुर्वन्ति चेत् अधोगतिं प्राप्नोति पुनः तत् सक्रं भवति तत्र सैक्लिकल् भवति वर्चुवली एव्रिबडी हेस् टु गो थ्रू देट् फ़ार् सम्टैम् इट्स् लैक् द यो यो एफेक्ट् तर्हि येषां प्रथमवारं मानवशरीरं लब्धं तेषु पशुधर्मः बहु परिचितः धर्मः अस्ति तदानीं ते किं कुर्वन्ति इति चेत् सृष्टिचक्रे प्रथमवारं मम मनुष्यशरीरं लब्धं तर्हि ते तत्र तेषां तु पशुधर्मसेवपालनं भवति पशुधर्मस्य पालनं यदा ते कुर्वन्ति यतोहि तत् परिचितधर्मः अस्ति इति कृत्वा तस्य पालनं कुर्वन्ति तदानीं मनसः अधोगतिः भवति तर्हि पुनः पुनर्जन्म भवति पुनः तत्र षड्वादनदशवादनपर्यन्तं यत्किमपि शरीरं लभ्यते तर्हि पुनः युगयुगयुगपर्यन्तं ते प्रयत्नं कुर्वन्ति सङ्घर्षं कुर्वन्ति तर्हि मनुष्यव्यवहारं कुर्वन्ति तर्हि मनुष्यव्यवहारं कृत्वा कृत्वा कृत्वा प्रयासं कृत्वा कृत्वा तेषाम् अग्रगतिः भवति कदाचित् मनुष्यशरीरं लभ्यते यदा मनुष्यशरीरं लभ्यते तदानीं यदा तेषाम् अन्तश्चक्षुः उद्घाटितं भवति तदानीं ते प्रयासं कुर्वन्ति अग्रगतिं प्राप्तुं प्रयासं कुर्वन्ति यदि ते स्वतन् स्वतन्त्र इच्छायाः प्रयोगं न कुर्वन्ति तदानीं तु अग्रगतिः न भवति अधोगतिः एव भवति तर्हि पुनः अस्मिन् चक्रे वयं पतामः पुनः जन्म पुनः जन्म पुनः मरणं पुनः जन्म पुनः मरणम् इति एवं रीत्या तक्रे वयं पतामः पुनः प्रयासं कुर्मः प्रयासं कुर्मः तदानीं मनुष्यशरीरं लब्धम् इदानीं वयं वदामः इतः अग्रे पशुजीवनं मास्तु मम पुनर्जन्म मास्तु इति तादृश मुक्ति आकाङ्क्षा मुक्ति आकाङ्क्षा यदा भवति तीव्रमुक्ति आकाङ्क्षा भवति तदानीं सद्गुरुः सद्गुरुप्राप्तिः भवति मुक्ति आकाङ्क्षया सद्गुरुप्राप्तिः सद्गुरुप्राप्तिः भवति चेत् तदानीं मार्गस्य दर्शनं भवति मार्गस्य दर्शनं भवति चेत् तदानीं सः चिन्तयति इतः अग्रे पशु पशुजीवनं मास्तु मनुष्यधर्मस्य पालनं करोमि स्वतन्त्र इच्छायाः पालनं करोमि तर्हि तदानीं ते तदानीं तत्र किं कुर्वन्ति इति चेत् ये जनाः मन पालनं कर्तुम् ते प्रकृतेः नियमानां विरुद्धं न गच्छन्ति प्रकृते नियमाना ना ना ये नियमानां विरुद्धं न गच्छन्ति इत्युक्ते किम् इति चेत् तत्र ये यत् यत्किमपि अस्माभिः चर्चितं शारीरिकस्तरे योगनिष्ठजीवनम् आहारः सा, सा सा सा साधना अनन्तरम् उपवासः एतत् सर्वं तत्र शारीरिकस्तरे यत्किमपि अपेक्षितमस्ति साधना नास्ति शारीरिकस्तरे तत्र सात्विक आहारः अनन्तरम् आसनानि निर्जलोपवासः तदनन्तरं मनसः वर्धनार्थं साधनां कुर्मः येन चैतन्यस्य प्रतिबिम्बः इतोपि स्पष्टं भवति यतोहि यदा मनसि मलिनानि भवन्ति दोषाः भवन्ति तदानीं चैतन्यस्य प्रतिबिम्बः स्पष्टं प्रतिबिम्बः स्पष्टः न भवति तर्हि यदा साधनां वयं कुर्मः तदानीं किं भवति इति चेत् मनसि यानि मलिनानि सन्ति तेषाम् अपगमनं भवति मनः स्वच्छं भवति शुद्धं भवति तदानीं चैतन्यस्य प्रतिबिम्बः स्पष्टं भवति तदर्थं तत्र विषयद्वयम् अपेक्षितम् एकं तु प्रकृतेः नियमानां पालनं प्रकृतेः नियमानां पालनम् इत्युक्ते तत्र कर्मफलस्य सम्पादनं मा भवेत् कर्मफलस्य सम्पादनं कथं तत्र तेषां निषेधः कथं भवितुम् अर्हति इति चेत् यदा कश्चन मनुष्यः परमात्मनः यन्त्ररूपेण कार्यं करोति इत्युक्ते स्व सः स्वयमेव कर्ता भोक्ता इति नास्ति यत्किमपि सः करोति परमात्मा परमात्मनः यः या इच्छा वर्तते तदनुगुणं सः कार्यं करोति इत्युक्ते परमात्मनः इच्छा का इति चेत् परमात्मा परमात्मा सर्वेषां जीवानां हितमेव इच्छति स सर्वेषां जीवानां कल्याणम् इच्छति तदनुगुणं वयं कार्यं कुर्मः अस्माकं स्वेच्छा नास्ति अस्माकम् अस्माकं स्व इच्छा न स्वेच्छा मम कृते किमपि अपेक्षितम् इति तादृश इच्छा नास्ति परमात्मा यत्किमपि इच्छा तस्य इच्छा अस्ति तदनुगुणं वयं कार्यं कुर्मः इत्युक्ते जगतः हितं तदर्थं वयं कार्यं कुर्मः तदानीम् अस्माकं स्व नास्ति स्वेच्छा नास्ति अस्माकं स्वेच्छा नास्ति चेत् एतादृशकार्ये यदा वयं संलग्नः भवामः तदानीं कर्मफलानां सम्पादनं न भवति पुण्यं वा पापम् इत्यस्य सम्पादनं न भवति यतोहि वयं स्वयं कर्तारः भोक्तारः न स्मः यत्किमपि कुर्मः परमात्मनः कृते कुर्मः तर्हि कर्मफलानाम् अस्माकं सम्पादनं न भवति एतादृशव्यवहारं यदा कुर्मः तदानीं प्रकृतेः नियमानुगुणं वयम् अग्रे गच्छामः पुण्यं पापं किमपि न भवति पूर्वजन्मनः पुण्यपापम् अपि झटिति तेषां नाशः अपि भवति ये जनाः साधनामार्गे सन्ति तेषां पूर्वजन्मनां पूर्वजन्मकर्मफलानां भोगः झटिति भवति अपि च इतः अग्रे कर्मफलानि न भवन्ति यतोहि ते स्वयं यत्किमपि कर्म कुर्वन्ति ते तु अन्येषाम् अन्येषां हितार्थं कुर्वन्ति परमात्मनः इच्छानुगुणं कार्यं कुर्वन्ति तर्हि इतः अग्रे कर्मफलानि न भविष्यन्ति अपि च ते अग्रगतिं प्राप्तुं साधनामपि कुर्वन्ति आध्यात्मिक अग्रगतिं प्राप्तुं साधनाम् अपि कुर्वन्ति केवलम् उचितकर्माणि एव कुर्वन्ति मनसि वैराग्यवैराग्यभावः अपि अस्ति जगति यानि वस्तूनि सन्ति तैः मनः रञ्जितं नास्ति तर्हि मनः अवश्यमेव अग्रगतिं प्राप् तर्हि तत्र मरणसमये तत्र किं भवति इति चेत् मुक्तिमोक्षः अवश्यं भवति ये जनाः एतादृशं जीवनं न व्यापय यापयन्ति तेषां किं भवति इति चेत् मरणसमये मनः मनसि यादृशः आकारः भवति तादृशमेव तेषां पुनर्जन्म भवति तदानीं तत्र पुनः तेषां संस्काराः भवन्ति अतः तेषां पुनर्जन्म भवति पुनः अस्मिन् जन्ममरणचक्रिते पतन्ति परन्तु ये जनाः ततना न कुर्वन्ति साधनामार्गे सन्ति तेषां तु अवश्यं मरणसमये परमात्मना सह ऐक्यं भवति मुक्तिमोक्षः भवति यतोहि मरणसमये तेषां मनसि परमात्मनः आकारः एव भवति परमात्मनः विषये चिन्तनं भवति यतोहि तत्र ता, तादृशचिन्त जीवनमेव ते सर्वदा यापयन्ति के केवलम् इत्युक्ते परमात्मनः चिन्तनं कदापि नासित मनसि तर्हि मरणसमये परमात्मनः चिन्तनं कथं भवितुम् अर्हति ये जनाः साधनायां सन्ति परमात्मनः चिन्तनं सर्वदा कुर्वन्ति तेषां कृते एव मरणसमये परमात्मनः चिन्तनं भवितुम् अर्हति यदा सामान्य जीवने प्रतिदिनम् अन्येषु विषयेषु वयं संलग्नः भवामः तदानीं वयं कथं चिन्तयितुं शक्नुमः तत्र यदा मरणम् आयाति तदानीम् अहं परमात्मनः विषये चिन्तयामि इति तदानीमपि मनः अस्मिन् एतेषु विषयेषु एव पतति परन्तु ये साधकः यः साधकः अस्ति यः सम्पूर्णजीवनं समर्पयति परमात्मनः कृते तर्हि मरणसमये अपि परमात्मनः चिन्तनं भवति अपि च यदा जीवति तदानीमपि योगमार्गे अस्ति उचितकर्माणि एव सः करोति तदानीं तत्र मरणसमये तत्र तु मुक्तिमोक्षः अवश्यमेव तस्य अवश्यं भवति तिः मोक्षः भवति तस्य मनः सूक्ष्मं सूक्ष्मं प्रतिदिनं सूक्ष्मं भवति साधनामार्गे तस्य मनः सूक्ष्मं भवति इति अत्र विषयः अस्ति किमपि अस्ति वा अत्र किमपि वक्तव्यं वा ओके तर्हि अग्रे गच्छामः किं सर्लापग्ने अग्रे पठति वा अस्तु यानि कर्माणि स्थूल वस्तुषु मन आकर्षय अभी चकृति कर्मयंर्मा अथवा अव्यामी दुष्टकर्मा अथवा अवद्या अविद्यामूशत्र अष्टाशाण अष्ट बंधा चीज कामः पा शत, षत्रवः षट्शत्रवः षट्शत्रवः इति पञ्चज्ञानेन्द्रियाविमानषष्ट शत्र, शत्रवः इति स्यात् अष्ट न न न षट्शत्रवः अत्र अत्र उच्यमानमस्ति के ते शत्रवः इति अग्रे अग्रे अष्टापाशाणां अष्टौ बन्धनानि च कर्तृ भवति कामः पार्थिकविषया अभिलाषः क्रोधः रोषः लोभः वृत्तेः मोह आकर्षणीकता मात्सर्य ईष्या चषत्रवः सन्ति भयं भीः लज्जा ह्रीः घृणा द्वेष शङ्का सन्देह कुल <gözDA> उच्चवंशः शीला संस्कृते जटिलता मानम् अधिकता विशूनता, च अष्टौ बन्धनानि सन्ति षट् इत्यस्य षट् रिपुः इत्यस्य च शत्रवः इति अर्थः एते षट्शक्तयः मनुष्येषु शत्रवः इति उच्यन्ते यतः ते मनः स्थूलतायाम् उपसहन्ते सूक्ष्मं प्रति गमनं च निवारयन्ति जीवात्मनः परमपदं सूक्ष्मम् अस्ति यत् किमपि च परमपदं प्राप्तुं जीवात्मनं निवारयति तत् तस्य शत्रुः एते षट् शक्तयः अतः षट् शत्रवः इति उच्यन्ते अष्टपाशाः अष्टापाशाः इत्यस्य अष्टौ बन्धनानि इति अर्थः शै कैसे गतिम कर मनुष्या सूक्ष्म पर्यतम वह सृष्टि पशा अर्थ मनुष्य सूक्ष्म प्रति गति, गति परंतु अष्टु यहाज्जा भगिनी अधो द्रष्टव्यम् भयम् घृणम् इत्यादिषु प्रति प्रतिसरणेन मनुष्याः स्थूल स्थूलेषु एव लीनाः भवन्ति सूक्ष्मम् प्रति तेषाम् प्रगतिः निर्वृता भवति तो अत्र विषयः अस्ति यदि मनः स्थूलवस्तुषु प्रति आकर्षितः भवति स्थूलवस्तु इत्युक्ते अस्माकम् इन्द्रियैः या वस्तु रूप सन्ति रूपरसगन्ध स्पर्श स्वाद इति यत् अस्ति तेषां प्रति यदि मनः सन्निग्धं भवति तत्र स्थूल आकर्षणम् अस्ति वदामः तु मनः इन्द्रियैः सह इति मनैः सः धावति वस्तु प्रति वस्तुना प्रति धावति इति अस्ति यदि इति भवति तत् वयं दुष्टकर्म इति वदामः इति अस्ति माया सो अविद्यामाया मीन्स् मनः यदि बहिः गच्छति न तु अन्तर्ध्यानं करोति इति दुष्टकर्म भवति यदि आ, आ, एते अष्ट षडशत्रवः अष्टपाशाः इति वयं वदामः इति कर्तरि भवति कर्तरी इति यत् जीव अस्ति इति प्रथमं रिपुः अस्ति कामः यदि कामः इति इच्छा आ, आ, इच्छा अस्ति अस्माकं पार्थिवविषयान् प्रति इच्छा भवति यथा वयं रूपा सुन्दरवस्तूनि द्रष्टुम् इच्छामः चलनचित्रमिति द्रष्टुम् इच्छामः मधुरगीतं श्रुत्वा श्रोतुम् इति अभिलाषा भवति वा न, कोमल कोमलवस् वस्त्राणि पातुम् इति धारि धारितुम् इति अस्माकम् मनः बहिः गच्छति इति अद्य अहम् एकं वस्त्रं क्रीणामि द्वितीय इति मनः तत्र इति गच्छति तु काम इति अस्ति कामः इति प्रथमम् अभिलाषा अस्ति यदि कामः इति पूरय न पूरयति तु मनसि क्रोधः उत्पत् उत्पद्यते यदि क्रोधः उत्पत्ति उत्पत्त तद् यदि yeah. कामस्य पूर्तिः भवति तर्हि लोभः जायते लोभमिति अधिकम् अधिकम् इच्छा भवति इदानीम् अहं गृहं क्रीतवती इदानीं गृह Uh, गृहं सुन्दरं कर्तुं मम अति uh, uh, अभिलाषा अस्ति अहम् um, अन्य फर्निचर् uh, uh, इति गृहामि क्रीणामि इति त्वोभः अधिकं भवति तत् मोहः अपि भवति यदि अहं uh, कोऽपि वस्तु uh, स्वीकरोमि तत् प्रति अधिकम् अधिकम् आकर्षणं भवति इति मोह जातं तदनन्तरं भवति मद मद इति मोह मद इति मम प्रति यदि अन्ये अन्येषु अधिकम् अस्ति मम ईशा अस्ति मम प्रतिवसिनः अधिकं सुन्दरं सुन्दरं तस्य गृहे मम मनसि ईशा आगच्छति अहमपि इति नूतन टेस्ला कार् इति क्रीणामि इति मनसि आगच्छति तु प्रथमं काम आधारीकृतः अन्य ये विकाराः भवन्ति काम क्रोधलोभ मोह मद मत्सर्य इति षट्शत वयं वदामः तदनन्तरं ये आ, भयं लज्जा घृणा इति भवति भयम् इति अस्ति यदि वयं किमपि मम कृते अस्ति तत् मम कृते एव भवेत् कोऽपि इति चोरं न भवेत् इति अ भय भवति तो अहं कथम् इत्यस्य आरक्षणं करोमि वा Uh, भयं भवति इति अन्यान् uh, uh, एकत्वभावना अस्ति मम मनसि अहम् uh, अन्यं पश्यामि मम uh, भेदम् अस्ति भेदभावः यत्र भवति तत्र भयस्य uh, भावना भवति भीतिः आगच्छति uh, लज्जा अपि यदि कोऽपि अहं नदी उत्सवं गच्छामि मम कृते इति सुन्दराणि वस्त्राणि गन्तुं शक्ति नास्ति किन्तु मम ये वस्त्राणि सन्ति ते अन्यान् अपेक्षा ते सुन्दर नास्ति ते अति यच्छिप् देन् इति लज्जा आगच्छति मम अभुषराणि इति सुन्दर नास्ति वा लज्जा घृणा आगच्छति अन्यान् प्रस्ति अन्यान् प्रस्ति यदि के मम अधो अधः सन्ति ते तेषां प्रति मम मनसि द्वेषः भवति घृणा भवति अहं तेषां प्रति अधिक मम मम पदवी उच्चा अस्ति ते नीचे मम अधो सन्ति तु तेषां प्रति घृणा भवति ते मम यथा यथा भवती उक्तवती सोशियल् स्टीग् मास्टरम् अस्ति तत् प्रति अपि एतम् अहं हिन्दु अस्मि मुस्लिम् अस्ति ते अपि जातिपात इति भवति तत्र घृणा भवति अन्यान् प्रति यदि किं किमपि शङ्का आगच्छति सन्देहः कथं भवति अहं सदैव इति चिन्तयामि कोऽपि अन्य मम प्रति यं कमपि मम प्रति अस्ति तत् मम यत् विचारः अस्ति य का सुन्दडिया अस्ति मम मनसि तत् इति मां प्रति दृष्ट्वा मम ऐडिया स्वीकृत्य प्रथमं तत् तस्य प्रकाशं करोति पुस्तकं लिखति सदैव मम प्रति ये अधिका निपुणाः तेषां प्रति सन्देहः आगच्छति मम ऐडिया गृहीत्वा एव प्रदर्शनं प्रदर्शनं करोति किन्तु वस्तुतः इति मम ऐडिया आसीत् इति आगच्छति वंशस्य अपि कुलः इति भवति मम जातिः जास् उच्चैः अन्यस्य जातिः नीची अस्ति इति भवति शीला संस्कृते जटिलता अस्ति मम अस्माकं कुल् अपि उच्च अस्ति इति सर्वे इति अष्टबन्धनानि सन्ति जिगु जिगुप्सा अस्ति जिगुप्सा न वक्तुं शक्नोमि किमस्ति अन्यस्य विषये अन्यस्य विषये अनुचितं वयं चर्चां कुर्मः तेषां दोषाणां चर्चा अन्ये अन्येषां स्वभावे ये दोषाः सन्ति तेषां चर्चा तेषां पृष्ठतः बेट् बैटिङ्ग् इति वदामः खलु ओके जुगुप्सा अस्तु मानं तु वय जाने अहं मानमपि गर्व अस्ति अस्ति इति भवति मानम् तो अस्ति षट् Uh, शत्र शत्रु शत्रवः अपि अष्ट uh, आशा इति भवन्ति तेन मनबद्ध बद्धं भवति अनेन अने अन्येभिः अने, अने, अने अने अने अन, अन, uh, अन्ये अन्येभिः अनेन सन् किं भवति भगिनि किं किम् अन्यैः एतैः एतैः एतैः मनबद्धं भवति तस्य कथं निवार निवारणीयम् इति यदि वयं न निवारणामः ना तत् यत् यत् स्तरे वयम् इदानीं इदा, इदानीम स्मह स्मः तस्मात् वयम् अधो इ, स्थूल पर्य प्रति गच्छामः यदि इति निवारयामः इति अष्टपा अष्टपाश षट् रिपवः तत् अस्माकम् उपरि गति प्रगतिः भवति तत् सूक्ष्मतर वयं गच्छामः इति अस्ति मुखचिन्तनम् अस्मिन् परिच्छेदे भगिनि आमामां समीचितं समीचीनम् इत्युक्ते अनुचितकर्माणि कानि इति, इति विषयः अविद्यामाया इति वयं वदामः तत्र अविद्यामायायां षट्रिपवः अष्टपाशाः सन्ति अनुचितकर्माणि इति वयं वदामः यः साधकः अस्ति तस्मिन् एतानि अनुचितकर्माणि स्वाभाविकतया न भवन्ति यः साधनामार्गे सा अस्ति यतोहि स्वाभाविकतया किमर्थम् एतानि न भवन्ति इत्युक्ते यतोहि तस्य हृदि तु परमात्मानां प्रति प्रेमभावः वर्तते यत्र भक्तिभावः वर्तते तत्र एतादृश अनुचितव्यवहारः न भवति यतोहि तेषां येषु एतादृशपरमात्मानं प्रति प्रीतिभावः नास्ति तेषु एव एतादृश अनुचि अनुचितव्यवहार अनुचितकर्माणि भवन्ति अस्माभिः पूर्वमपि चर्चितं यत् मनुष्येषु एकसहस्रं वृत्तयः सन्ति एते एतासु वृत्तिषु एका वृत्तिः अस्ति परमात्मानं प्रति गमनं परमात्मानं प्रति आकर्षणम् इति एका वृत्तिः अस्ति अन्ये अन्याः सर्वाः वृत्तयः अन्येषा अन्येषां विषयाणाम् अस्ति तर्हि एका एव वृत्ति परमात्मानां प्रति ग अस्ति तर्हि यः साधकः अस्ति तस्मिन् आ, इयं वृत्तिः प्रबला भवति एतादृश अनुचितव्यवहारः तादृशसाधकेन भवति परमात्मनः कृपया यदा परमात्मनं प्रति आकर्षणं भक्तिभावः भवति तदानीं क्रमेण एतादृशदुर्व्यवहारः अनुचितकर्माणि क्रमेण ते अपगच्छन्ति मनुष्यस्य उपरि तेषां यः ग्रिप् अस्ति ग्रिप् इति वदामः तद् अपगच्छति येषु पुरुषेषु परमात्मनं प्रति आकर्षणं नास्ति तेषु पुरुषे ते ते पुरुषाः एव एतादृश अनुचितकर्माणि कुर्वन्ति तेषु एव एतादृश अनुचितसंस्काराः भवन्ति अनुचितप्रवृत्तिः भवति आ, ते एव षड्रिपवः अष्टपाशाः इत्येतैः बद्धाः भवन्ति अन्ये अन्ये ये साधकाः सन्ति तेषु साधना साधनामार्ग मार्गे सन्ति तेषां किं भवति इति चेत् मनः मनः क्रमेण मुक्त मुक्तं भवति बन्धनैः बन्धनैः बन्धनात् बन्धनेभ्यः मुक्तं भवति तर्हि ये जनाः स्वस्य यः अहम्भावः अस्ति तस्मिन् ते संलग्नः भवन्ति तदानिम् ते सर्वदा स्वस्य कल्याणार्थमेव कार्यं कुर्वन्ति अन्येषां कल्याणस्य विषये चिन्तनं न कुर्वन्ति यतोहि स्वार्थभावः अधिक अधिकः भवति तेषु स्वविषये एव चिन्तनं कुर्वन्ति अतः अन्येषां विरोधे एव ते कार्यं कुर्वन्ति तेषु जीवेषु एतादृशषड्रुभवः अष्टपाशः भवन्ति यदा मनः स्थूलं वर्तते तदानीम् एतादृशभावाः भवन्ति परन्तु यदा मनः वर्धते मनसि परमात्मानं प्रति आकर्षणम् अस्ति तदानीं मनसि एतादृशभावाः अष्टरिपवः षड् अष्टरिपवः एते एते सर्वे अपि क्रमेण अपगच्छन्ति एते भावाः मनुष्यान् मनुष्येषु बन्धनम् एते भावाः स्थापयन्ति तर्हि एते भावाः सन्ति चेत् मनुष्यः स्वयमेव कर्ता स्वयमेव भोक्ता इति अनुभवति यतोहि एतेषां कुप्रभावः अस्ति मनुष्येषु ते जनाः किं कुर्वन्ति इति चेत् ते जनाः प्रकृतेः नियमानां पालनं न कुर्वन्ति न वा ते साधनां कुर्वन्ति अतः ते पशुव्यवहारमेव कुर्वन्ति तर्हि प्रतिसञ्चर्धारायां तेषां तु अधोगतिः निश्चयेन भवति तेषाम् अधोगतिः पुनः षड्वादनात् पुनः दशवादनपर्यन्तं तेषां गमनम् अपेक्षितम अस्ति पुनः मनुष्यशरीरं प्राप्तुम् इति कृत्वा येषु एतादृशदुर्व्यवहारः ये वर्तते मनसि ये ये मलिश मलिनाः सन्ति तेषाम् अग्रगतिः स्थगितं भवति परन्तु ये सा यः साधकः अस्ति यः साधनामार्गे सा, अस्ति तस्य क्रमेण किं भवति इति चेत् मनः वर्धते वयं स्वयम् अनुभक्तुं शक्नुमः यः यः प्रतिदिनं साधनां करोति सः स्वयम् अनुभक्तुं शक् शक्नोति यत् मनसि तत्र प्रीतिभावः वर्धते अन्येषां प्रति प्रीतिभावः वर्धते अन्येषां यदा कष्टं कष्टं भवति तदानीं सहायं कर्तुम् अस्माकं मनः मनः उद्युक्तं भवति सामान्यतया मनः तादृशं न भवति खलु अन्यस्य कष्टं भवति चेत् ओ अन्यस्य कष्टं अहं किं करोमि मम नास्ति इति कृत्वा अग्रे गच्छन्ति परन्तु यः साधनामार्गे अस्ति सः तु गत्वा सहायं कर्तुं प्रयत्नं करोति इति कृत्वा तत्र यदि मनसि षड्रिपवः अष्टपाशः सन्ति तदानीं तादृशं कर्तुं न अर्हति खलु तादृशभावाः तान् प्रतिरुणद्धि परन्तु यः साधनामार्गे अस्ति तस्य मनः वर्धते इति तत्र तदेव प्रमाणमस्ति साधनाद्वारा मनः वर्धते इत्यत्र प्रमाणं किमिति मनः मनसि अन्यं प्रति अन्यस्य कल्याणं कर्तुम् आकाङ्क्षा भवति तर्हि तदानीं वयम् अवगन्तुं शक्नुमः मनसि ये इच्छाः सन्ति अनिच्छाः सन्ति ते परिवर्तन्ते सामान्यतया ये इच्छाः सन्ति ते इच्छाः परिवर्तन्ते सामान्यतया ये अनिच्छाः सन्ति ता तान् परिवर्तन्ते इति कृत्वा अत्र उच्यमानम् अस्ति स्थूलात् सूक्ष्मं प्रति गमनार्थम् एते न भवेयुः एते सन्ति चेत् अग्रगतिः स्थगिता भवति अस्तु तर्हि अस्तु अत्र एकः लघु लघुपरिच्छेदः अस्ति किं तत्र सगिता भग्नि पठति इत्येव विद्यामायाः विद्यामायायाः अनुसरणं तत्कर्मं स्यात् अपि तु अविद्यामायाः अनुसरणं दुष्कर्म स्यात् विद्यामाया तमेण सूक्ष्मं प्रति कश्चित् नुसारं मानवस्य भवति विद्यामायाः अनुसरणं कर्तव्यं भवति अनेन तेषां सूक्ष्मं प्रति गतिः त्वरिता भवति कश्चन शीघ्रं परमपङ्क्तौ पुनः आगच्छति इति इत्युक्ते वयं मनुष्यशरीरं यदा प्राप्नुमः तदा सत्कर्म कर्म कुर्मः वा दुष्कर्म कुर्मः वा तदेव अनुसारम् अस्माकं गतिः भवति सत्कर्म विद्यामाया इत्युक्ते सत्कर्म अविद्यामाया इत्युक्ते दुष्कर्म यदा सूक्ष्मं प्रति भवति यदि वयं सत्कर्मं सत्कर्म कुर्मः तदा सूक्ष्मं प्रति गति भवति यदा दुष्कर्म कुर्मः तदा गति अवरुद्ध्यति एवमेव सत्कर्म कुर्मः चेत् शनैः शनैः सूक्ष्मं प्रति गति भवति एवम् एवमेव वयम् परं प्राप्तं प्राप्तुं शनैः शक्नुमः षष्टिनियमानुसारं तु सर्वेषां कृते सूक्ष्मं प्रति गतिः भवेयुः इत्येव षष्टेः नियमः अस्ति यदि वयं षष्टेः नियमम् अनुसृत्य कर्मं कर्म कुर्मः तदैव अस्माकम् उच्चगतिः भवति यदि दुष्कर्म कुर्मः षष्टिविरुद्धं कर्म समीचीनं तर्हि अत्र किम् अस्ति इति चेत् मनुष्येषु स्वतन्त्र इच्छा वर्तते अतः तदाधारीकृत्य वयं विद्यामायाः अनुसरणं कर्तुं शक्नुमः अथवा अविद्यामायाः अनुसरणं कर्तुं शक्नुमः यदा विद्यामायाः अनुसरणं कुर्मः तदानीं परमात्मनः प्रति अस्माकं यद् दूरमस्ति तद् तत्र नैकट्यम् आगच्छति वयं परमात्मानं प्रति गच्छामः यदि अवि पालनं कुर्मः तदानीं परमात्मान परमात्मातः दूरं वयं गच्छामः परमात्मा परमात्मा केन्द्रे वर्तते परमात्माकेन्द्रे वर्तते तत्र तस्य परितः वयं सर्वे भ्रमणं कुर्वन्तः स्मः तत्र यदि परमात्मनः समीपं कोऽपि परमात्मनः समीपं गच्छति कोऽपि परमात्मातः दूरं गच्छति विद्यामायाः अनुसरणं कुर्मः चेत् अनुसरणं कुर्मः चेत् परमात्मनः प्रतिगच्छ नैकट्यं प्राप् प्राप्तुं शक्नुमः अविद्यामायाः पालनं कुर्मः चेत् परमात्मातः दूरं गच्छामः परन्तु तत्र चक्रे एव वयं स्मः परमात्मा केन्द्रबिन्दौ अस्ति तस्य परितः वयं सर्वे भ्रमणं कुर्मः सर्वेषां गतिः अवश्यम् अस्ति अग्रगतिः अस्ति अथवा अधोगतिः अस्ति परन्तु गतिः तु अवश्यम् अस्ति सर्वत्र तत्र अस्माकं सामीप्यं वा भवति अथवा दूरता वा भवति यत्किमपि वा भवति तदा अस्माकं कर्मानुगुणं भवति इति अत्र विषयः अस्ति अस्तु अत्र कोऽपि प्रश्नः अस्ति वा नो चेत् अत्र एव समापयामः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनी धन्यवादः नमस्कारः